ओ। ध्यायामो धलापकुण्टनपतीं तेजोमयीं नैष्ठिकीं स्निग्धापा विलोकिनीं भगवतीं मन्दस्मितशीनुषी वात्सल्यामृतवर्षिणीं सुमधुरम् सङ्कीर्तनालापिनी श्यामाङ्गीम् मधुसिक्तसूक्तिम् अमृतानन्दात्मिकामृतीश्वरी ॐ <laughs> अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः ओम् गणाना आम् त्वा गणपतिमोहवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम्भ्रह्मनाम् ब्रह्मणःपद आनशृण्वन्ूधिभिस्सीदसाधनम् ओम श्री महागणपतये नमः प्रणोदेमी सरस्वति वाजे भैरवादिनी वति धीनाम वितर्यवतु वाग्दे जय नमः सो लास्ट वीक वी स्टार्टेड स्टडीिंग विष्णु सूक्तम सो वी विल चेंट टुगेदर टिल वेयरएवर वी स्टडीड लास्ट टाइम वेयर डिड वी stop last time urukamasyahai banduriddhare okay ado yeah, vishnuho pade parame madno utsah were we stop anybody remember i think ah, Pr ya. pra vishnu rstu tavas ah prada vishnu stavade viryay that's where we stop yeah stop to that point we will chant uh, together okay starting from the beginning everybody ready yeah okay ॐ विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवाजि ममे प्रजापुंसि यो अस्कबायदुत्तरगुंसधस्थं विचक्रमाणस्त्रेधोरुगायु विष्णोरराटमसि विष्णो ्रेष्ठो विष्णोस्यूरसि विष्णो ओर्ध्रुवमसि वैष्णवमसि विष्णवे तदस्य प्रियमपि बाधोऽश्याम् नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुरिथा Vishnu of oh, Pade Parame Madhva Utsaha Pradhar Vishnu Savade Viryaya That is how far we learnt, right? Is everybody okay yeah. with that? Yeah Anybody yeah. Has, has any problems, questions? No I think we did one more paragraph No, we mean... did not Oh, okay I mean, this is the second time we are doing it, so we didn't do it last time, though. We did this once before. So shall we yeah. start uh, reading the next part, or anybody who has uh, problems with the uh, part we learned so far? <clears throat> do you have the page number for Mantra Pushpam? 402. Thanks. Thanks. 402 is in my book i think it's uh, most of them will be the same page okay this is different admino he said 202 402 okay 402 yeah that's it thanks you found it yes thank you okay So let us start from wherever we stopped will go for the next sentence Mrigona bhimaha Mrigona bhimaha Mrigona bhimaha Kucharo girishthaah Kucharo girishthaah Kucharo girishthaah मृगो न भीमः मृगो न भीमःचरो गिरिष्ठाः विसर्ग फलोल् भय ककार भीमः कुचरः भीमः कुचरः विसर्गात् गच्छ ह सौण्ड् ओके ौण्ड्से मृगोन भीम कुचरसर्ग हि प्रोनौन्स् बलते ह सौण्ड् मृगोन भीम कुचरोगिरिष्टाः मृगोन भीमः कुचरोगिरिष्टाः मृगोन भीम कुचरोगिरिष्टाः ओके गुड् षु त्रिषु विक्रमणेषु इस् ओके दर्ड् न् मोर् टैम् दिस् टैम् ओके यस्यो ऋषु त्रिषु विक्रमणेषु ऋषि त्रिषु विक्रमणेषु ऋषु त्रिषु विक्रमणेषु अधिक्ष्यन्ति भुवनानि विश्वा ुवनानि विश्वा परो मात्रया तनुवा वृधाना परोना वा वृथा ल् परो मात्रया तनुवा वृधान न ते महित्वमन् नते महित्वम मद् वन्ति वन्ति अय बुद्धिमानम वष्णु वन्ति पाप्पनो दशनु वन्ति ओके ओके सो आई विल डू द थिंग वी स्टार्टेड टुडे टिल द व्हाटएवर वी लर्न सो फार एंड देन यू गाइस रिपीट वाइज एंड वी विल प्रैक्टिस इंडिविजुअली ओके मृगोन भीम कुचरोगिरिष्टाः यस्योरुषु त्रिषु विक्रमणेषु भुवनानि विश्वा परो मात्रया तनुवावृधाना न ते महित्वमन्वश्नुवन्ति need to is that my problem or anybody else's problem i can't hear anything yeah. oh i was checking on mute <laughs> okay um can i hear one more time from uh, let's do one thing everybody is okay with it then we can practice individually that's okay i don't hear it need to hear everybody at the same time you ristha vishnu um de parame मृगनभीमाकुचर गिरिष्टाः पश्य ऋजुक्लिषु विक्रमणिषु हरिक्षियन्ति भुवना हर मात्रया तनुवा हृतान् भीम परो गिरिष्ठा यस्यो ऋषुषुविक्रमणेषु दिक्ष्यन्ति भुवनानि विश्वा परो मात्या तनुवा वृदा न tamannasya vanti Okay everybody is okay with that Yeah Yeah Okay so who wants to try it first I can go Okay go ahead Ragana bhema kushtato kilsaha ayashurushutrushuvitsvamanayatu api परो मात्रिगो नीमो गिरिष्टाः यस्यो त्रिषु विक्रमणेषु परो मात्रीमकुचरोगिरिष्टाः यस्यो रुषु त्रिषु विक्रमणेषु अधिच्यन्ति भुवनानि विश्वा परो मात्रया तनुवावृधाना न ते महि न ते महित्वम् अन्वश्रुवन्ति मृगो न भीमः कुचरो गिरिष्ठाः यस्यो रुषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा परो मात्रया तनुवावृथा न ते पक्षित्वमन्वश्नुवन्ति When you say the GRISTHA, okay, the KHA at the end is going to be GRISTHA, uh, KHA, okay, it's softer on the A, and harder on the IKH sound, okay, that's all. GRISTHA, GRISTHA, GRISTHA, KHA, GRISTHA, KHA, that A should not be stressed, it's, a, it's like a aspirant, okay, GRISTHA, KHA, A is very soft, that's mm -hmm. all, okay. Girishtha. Girishtha, Girishtha, Girishtha, okay, a lot of people, oh. real pronunciation, some other thing, they don't say Girishtha, they say Girishtha, Girishtha, oh. they don't say A ah, at the end, Girishtha, <laughs> okay. okay, is that correct oh. or incorrect? Uh, okay, huh? can you say that again, Harry? Yeah, the thing is, it, there are two schools of thought, some people would say Girishtha, मृगोन बी मह्चरो गिरिष्टा मृगो नी कुचरो गिरिष्टा गिरिष्टाल् बिल् बि स्ट्रेस् अण्ड् अ और जस्ट् एक् कृष्णाय नमः निष्णाय न मिलोन् से हि अह् okay oh, so okay. okay there are two schools of thought i um, thought that was a whole between uh, the bisarga and the kakara no no sargana hkara i don't think the other thing is no. because it comes in okay. the end it is easier to say ha as opposed to ug okay it's ug uh, it's uh, um real pronunciation is because visarga is normally followed by something else it gets modified anyway with visarga and it is at the end then you should not stress the ha as the akara at the end it should be soft ha and very very soft akara okay oh, but when you are learning it we will say ha because you want to make sure that people pronounce it that's why okay, oh, okay. i hear that people could when when the visarga is at the end of a word they constrict their throat and make this guttural sound yeah exactly that's how it should be bang that's a that's a correct way to do it yeah it's it's, it's actually the hkara is coming from the throat so it should be like that but it's actually the both akara and hkara the visarga comes from the same uh, portion same uh, throat portion okay So they all uh, are similar in, in their pronunciations, so... But that is optional, like, uh, I don't have to make that sound... It's, it's, could it's optional say. in the sense, you know, it depends on which school of uh, learning has uh, you gone through, okay, so... It, both are correct, there's nothing wrong about it. Uh. But it, but seems like it's definitely not Giristha, Ha, like I was saying previously. Yeah, Giristha, Ha, don't say Ha there, okay? there's no the ha is her with the akara don't stress the akara you can stress the ha if you want girishta okay yeah. so but even though the akara is there you don't say you just replace it with ha yeah you no know, akara is there girishta is there but the, then you say visarga mm -hmm. after that right yes so the her sound will come it will come from the throat but then udharma yeah. not be akara after that if the akara is there make it soft that's all okay okay yeah. okay. okay don't say girishtha ha okay say girishtha girishtha okay yeah girishtha so so when we say lokasamasta is it loka samasta okay there there is a slight uh, difference there actually it's, it's a zg followed by a sakara right yes no you have two options there one thing is zg followed by sakara what is the pronunciation a double x double sakara yes. right so lokas yes. samasta sugino bhavantu is one way to say it, okay yes if you really want to um, stop uh, at each uh, um, word you can say lokas samasta sugino bhavantu okay If you okay. say it correctly, then it will come with double Sakara only because it's followed by Sakara. What do you want to stop it? You can say mm. Lokaha, Samastaha, Sukhino Bhavandhu. But if you want to say Lokaha, Samastaha, Sukhino Bhavandhu, that stress should, the Hakara should not be there. That's all. Okay? Mm. Okay. Lokaha, Samastaha, Sukhino Bhavandhu. The Ha is there, but the Hakara after the Ha is very, very slight, very unstressed. Okay. That's all. Okay, okay. So, oh, make. Okay. Can you teach? Okay, who is next? Hey, I, I can go. Ahead. Okay, go ahead. Narakon bhima kucharu girishatah yashyo rushu trishu vikrama vikrame vikramaneshu vikramanesh परीक्षीयन्ति भुवनानि वक्षा विश्वा विश्वा परोमत्रय तन्वृतान् वश्नुवन्ति मृगो न भीमः गिरिष्ठाः यस्यो ऋषु त्रिषु विक्रमणेषु अधिक्षयन्ति भुवनानि विश्वा परो मात्रया तनुवावृदान न ते महित्वमन्वश्नुवन्ति मृगो न भीमः यस्यो ऋषु त्रिषु विक्रमणेषु अधिक्षयन्ति भुवनानि विश्वायन्ति अत्र विज्ञानम् डोट् मध्ये अधिक्षयन्ति कि तत्र दोषः अस्ति अधिक्षीयन्ति अधिक्षयन्ति भुवन न्ति भुवनानि विश्वा परो मात्रया तनु वा न तेत्वमन्वश्नुवन्ति भवती पठितुं शक्नोति खलु अहं तत्र प्रेषयामि मम समीपे पी डी एफ् अस्ति एतस्य मन्त्रपुष्पस्य आं महोदय प्रेषयतु अस्तु तद्विज्ञानं डाट् मध्ये यत्र कुत्रापि केन दोषाः सन्ति मृगो न भीमः कुचरो गिरिष्ठाः यस्यो ऋषु त्रिषु विक्रमणेषु अधिक्षीयन्ति भुवनानि विश्वा परो मात्रया तनुवावृधा नते ते महित्वमन्वश्नुवन्ति न तम एरिबडी आर डन ओके एरिबडी डनडे ओके नेक्स्ट लर्नडे नेक्स्ट पैराग्राफ उभे देवितमरजसि पृथ्वीया उभे देवितमरजसि पृथिव्या पृथिव्या पृथिव्या विष्णो देवत्वम् पृथ्या विष्णो देवत्वं पृथिव्या विष्णो देवत्वम् पृथिव्या विष्णो देवत्वम् विष्णु देवत्वम् उभे दे विद्मरजसि पृथ्व विष्णु देवत्वम् अरे परमस्य वित्थे विचक्रमे पृथिवीमेषचक्रमे पृथिवीमेष एताम् विचक्रमे पृथिवीष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् ध्रुवासो अस्य कीरयोजनासः dhuvast asti rinjayo utsaha dhuvast asti ekik niyojana asaha are you ready okay without the sentences so far yeah yeah okay so let's try so far this up to this point okay i'll say it once you guys repeat twice उभे ते विद्मरजसी पृथिव्या विष्णो देवत्वम् परमस्य वित्थे विचक्रमे पृथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् ध्रुवासोऽस्य कीर् योजनासः स्वीकृ विष्णो देवत्वं परमस्य वित्ते त्रिचक्रमे पृथिवी मेष्ट एतां क्षेत्राय विष्णुर्मनुषेष् उवासो हिरयो जना सह जगच्छे विचक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्य उवासो अस्य कीरयो जना सह उभे ते वित् स्मरजसि पृथिव्या विष्णो देवत्वं परमस्य वित्से विचक्रमे मेश एताम् क्षेत्राय विष्णुर्मनुषे तशस्यन् ध्रुवासो अस्य कीर योजना सह विजसे पृथिव्या विष्णुदेव त्वं परमत्सवित्से विचक्रमे पृथिवी मेघ एताम् <laughs> य विष्णुर्मे दश सन् धृवासो अस्य कीरयोजनास्ट् ऐ केन् गो नेक्स्ट् उबेते विद्म रजसि पृथिव्या विष्णुदेवरजसि पृथिव्या विष्णुदेवत्वम् ृथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् द्रुवासो अस्य कीरयोजना सहक्स्ट् Can I try? Oh, go ahead. Very good. Who wants to go next? पृथिव्या विष्णो देवत्वं परमस्य वित्से त्रिचत्रमे पृथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् सुवासो अस्य चिरयोजनासः उभेते विद्मरजसी पृथिव्या विष्णो देवत्वं परमत्स्य वित्से विचक्रमे पृथिवीमेषाम् क्षेत्राय विष्णुर्मनुषे दश दशस्यन् ध्रुवासो अस्य Next. ओके रजसि पृथिव्या विष्णो देवत्वम् परमस्य वित्से विचक्रमे पृथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् ध्रुवासो अस्य ते विद्म रजसि पृथिव्या विष्णो ते देवत्वं परमस्य वित्ते मे पृथिवी इमेश एताम, क्षेत्राय विष्णुर्मनुषेतशस्य किरयो ओके ओकेण्ड् द नेक्स्ट् पार्ट् ऊरुक्षिति सु ऊरुक्षिगं चकारिकं सुजनिमाचकार सुजनिमाचकार ऊरुक्षितिगं सुजनिमाचकार र्चित्वा सम्महित्वा। महि प्रविष्णुरस्तु तव सस्तवीयान् प्रविष्णुरस्तु तव सस्तविष्णुरस्तु सस्तवीयान् प्रविष्णुरस्तु तव सस्तवीयान् तव सस्तवीयान् ओके ओकेरिपुफा ेष ह्यस्य स्थविरस्य नाम त्वेष ह्यस्य नाम be shaggyas yastha yes, yes. sabidya nama be shakti sukshya sabidya nama the double ga kara there followed by a ya okay everybody's okay okay let's try to this uh, second part i'll say one she gets repeat twice ऊरुक्षिविघुंसु जनिमाचकारदेवः पृथिवीमेष एताम् विचक्रमेशतर्च संमहित्वा प्रविष्णुरस्तु तव सस्तवीयान् स्वेशघ्यस्य स्तविरस्य नाम ्रीमेश एतां द्विचक्रमेश्वान् जनिमा चकार ओके इण्डिविज्यू वा I जनिमाचकारः पृथिवीमेष एतां विचक्रमेशतर्च संमहित्वा Very good. Who is next? पृथिवीमेश एतां विचक्रमे च तस्य संमहित्वा विष्णुरस्तु तव I can go next. Okay, ऐ केन् गो नेक्स्ट्दिगं सुजनिवाचकारा तिर्देव पृथिवीमेष एतां Yes, go ahead. जनिमाचकारः पृथिविमेषर्घयि पृथिवीमेष एताम् पृथिवीमेष एतां विचक्रमेश दर्च सम्मखित्वा प्रविष्णुरस्तु तव शस्त्ववीर्याणि Good. Who is next? I can go oh, okay. कारृदेवः prithivimesha एताम् विष्णुरस्तु तवक्षितिगु सुजनिमाचकारः पृथिवीमेष एताम् विचक्रमेशतश्च संमहित्वा प्रविष्णुरस्तु तवेषरस्य नाम ऊरुक्षितिगंसुजनिमाचकारः कृतिभीमेषाम् चक्रमेशतर्चित्वा स्वविष्णुरस्तु नाम उरुक्षितिगो सृजनीमाचकार ीमेश एतां विचक्रमे शतर्क्षसां महित्वा प्रविष्णुरस्तु तव सस्य वीयान् त्वेषख्यस्यस्तवीरस्य नाम गुड्बडिस् द नेक्स्ट् अतोवा अवन्तु अवन्तु नो अतोवा अवन्तु नो यतो विष्णुर्विचक्रमे यतो विष्णुर्विचक्रमे यतो विष्णुर्विचक्रमे अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे अतोन्तुर्विचक्रमे अतो देवान्तु यतो विष्णुद्विचक्रमे पृथिव्या सप्तधामभिः पृथिव्याः सप्तधामभिः पृथिव्याः सप्त दकार इस् दोके पृथिव्याः सप्तधामभिः इस् वर्ड् इट् इस् पृथिव्या सप्तधामभिः पृथिव्या सप्त पृथिव्या सप् इदं विष्णुर्विचक्रमे इदं विष्णुर्विक्रमे धे पदम् त्रिजेपे इदं विष्णुर्विचक्रमे त्रेधानि दधे पदम् इदम् विष्णुर्विच क्रमे प्रेधानि दयेपदम् रे सुरे सुरे त्रीणि पदा विचक्रमे त्रीणि पदाविचक्रमे त्रीणि पदाविचक्रमे विष्णुर्गोपा अदाभ्यः विष्णुगोपा विष्णुर्गोपा अदाभ्यः त्रीणिपदा विचक्रमे विष्णुर्गोपा अदाभ्यः चक्रमे विष्णुपा त्रीनिपदा विचक्रमे विष्णुगोपा बड् इस् ओके ततो धर्माणि धारयन् ततो धर्माणि धारयन् ततो धर्माणि धारयन् विष्णोः कर्माणि पश्यत विष्णो कर्माणि पश्यत यतो व्रतानि पशे यतो व्रता पश्यसे विष्णोः कर्माणि पश्यत यतो व्रतानि पश्य विष्णोः कर्माणि पश्यत यतो व्रतानि पश्पशे लोङ्गर् देबिस् अदो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्या सप्तधामभिः इदं विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य वा त्रीणि पदा विचक्रमे विष्णुर्गोपा अदा आभ्यः ततो धर्माणि धारयन् विष्णोः कर्माणि पश्यत यतो ओ व्रतानि पस्पशे इन्द्रस्य युज्यः सखा तदामभिः इदं विष्णुक्रमे प्रेताक्रमे विष्णु अदाभ्यः तत् पाणि विष्णो कर्माणि वृतान् इन्द्रस्य नो यतो विष्णु यः सर्वस्य यः सधाति की च त्वं ब्रह्ममित्रे अनद्रिते तस्मात् शुभपद्य पात्रे क्रमे दिपदात्त्यमे विष्णुर्भूतपतः अतः अभिहा Tato Vajrajaan Vajrajaan Vajrajaan Karma Vajrajaan Vajrajaan Vajrajaan Vajrajaan Vajrajaan Vajrajaan I'm going to get it. Everybody is okay? The whole thing? Yes. Yeah. Okay, let's practice individually. Who wants to try it on their own? ृथिव्या सप्तथामभिः इदं विष्णुविचक्रमेता समोढमस्य पादुं सुरे ीणिपदा विचक्रमे विष्णुगो अद आभ्यः ततो धर्मणि पश्यतु पश्यत यतो ओ निपे इन्द्रयुच्य सखा गुड् नेक्स्ट् अल्डूहरि ओके असो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्याः सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधा निधते पदम् समूढमस्त्यपागम् सुरे त्रीणिपदा विचक्रमे विष्णुर्गोपा अभ्यह विष्णोः कर्माणि पश्यत् यतो ओ व्रतानि पस्पशे इन्द्रस्य युद्ध सखा वेरि गुड् इस् अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्यासप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधा निदधे पदम् समूढमस्य पागम् सुरे त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः ततो धर्माणि धारयन् विष्णोः कर्माणि पश्यत यतो ओ व्रतानि इन्द्रस्य युज्य सखा अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्याः स प्रधामभिः इदम् विष्णोर्विचक्रमे त्रेधा निदधे पदम् समूढमस्य पावुं सुरे त्रीणि पदा विचक्रमे धारयन् विष्णोः धर्माणि धारयन, पश्यत् यतो ओ व्रतानि पस्पे इन्द्रस्य युज्य सखा युज्य सखा तत्र युज्य सखा गो नेक्स्ट् ओके अतो देवा अवन्तु यतो विष्णुर्विचक्रमे पृथिव्याः सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधानिदधे पदम् स मूढमस्य पागुंसुरे त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः ततो धर्माणि धारयन् विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे इन्द्रस्य युज्य सखा गुड् नेक्स्ट् देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्यात् सप्तथामभिः इदं चक्रमे, त्रेधा विदध निदधे पदम् समूढमस्य पाकं सुदे त्रीणि पदं पदापि चक्रमे विष्णुर्गो वा अदाभ्यः अत्ततो धर्माणि धारयन् विष्णो कर्माणि पश्यद यतो ओ कृतानि पस्पसे इन्द्रस्य इजस्त देवा अवन्तु नो यतो विष्णुर्विजक्रमे पृथिव्या सप्तधामभिः इदम् विष्णुर्विचक्रमे त्रेधा निदधे पदम् समूढमस्य पागुं सुरे त्रीणि पदा विजक्रमे विष्णुर्गोपा अदाभ्यः ततो धर्मानि धारयन् विष्णो कर्माणि पश्यत यतो व्रतानि पशे इन्द्रखासखा हु इस् नेक्स्ट् but uh, i hurry but i have a question yeah uh uh when it says daryan yeah. is it daryan or is it daryana daryanta is, is the nakara is because it is up that the inner has to come from the nasal sound okay if the that, that, that upper uh, tick was not there you can say daryan okay ventral upper tech is there it has to be a little more nasal dharayand okay so the upper tech was in there it will be dharayand okay i think there are like pravisnu uh, ras tu tava sasteviyan okay so sasteviyan is uh, not uh, up so the thing is you don't have to make it higher that's all mm so it's uh, just like uh, it's more of a uh, nasal up then uh, down that's all otherwise if it is down you don't you don't have to say anything it's just automatically our voice will come down at the end in this case the uh, it has to stay up that's all that uh, in there has to stay up then matter you can say riyan uh, or darayan or darayn okay darayana okay. is uh, in is uh, up that's all if you can get Aye. it good if you cannot get it it's okay riyan All right, I can go. Okay. Okay. deva ो देव अवन्तु नो यथो विष्णो त्रिचक्रमे पृथिव्या सक्तमभिः धामभिः इदं विष्णुचक्ष्मे त्रिधात्रि निदादे निददे पदं समुस्य भागं सुरे त्रीणि पदा विचक्रि मे विष्णोर्कोपा अदा अप्यथो धर्म तथो धर्म धार् यथा यतो व्रतं न पश्पसे युज्य सखा वेरि गुड् वेरिबुडि okay so let us the uh, once together we'll start the chants from the very beginning om vishnu urukam till indrasi jashada once together okay and we we'll stop for the day okay everybody ready yeah all right okay from the beginning till yajashaka one two three om oh, vishnu urukam oh. vidyani oh. प्रभोजं यः पार्थिवानिममे प्रजागुंसि यो अस्कभाय सुरगुंसधस्थम् विचक्रमाणस्त्रे दोरुगायो विष्णोरराटमसि विष्णोः पृष्टमसि विष्णोस्नप्रेस्थो विष्णो स्यूरसि विष्णो ओर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा तदस्य प्रियमपि बाधोऽश्याम् नरो यत्र देवयवो मदन्ति उरुक्रमस्य स हि बन्धुरित्वा विष्णोः परमे मध्व उत्सः प्रदद्विष्णुस्तव देवीर्याय मृगो न भीमः कुचरोगिरिष्ठाः यस्यो युषु त्रिषु विक्रमणेषु भुवनानि विश्वा परो मात्र यातनुवावृधान नते ते महित्वमन्वश्नुवन्ति उभे ते विद्मरचसि पृथिव्या विष्णो देवत्वम् परमस्य विचक्रमे पृथिवीमेष एताम् क्षेत्राय विष्णुर्मनुषे दशस्यन् द्रुवासो अस्य कीरयोजनासः ऊरुक्षितिकुंसुजनिमाचकारः पृथिवीमेष एताम् विचक्रमेशतर्च संमहित्वा प्रविष्पुरस्तुत्तवसस्तवीयान् त्वेष घ्यस्य सविरस्य नाम अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे पृथिव्याः सप्तधामभिः इदं विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य बाहुंसुरे त्रीणि पता विचक्रमे विष्णुर्गोपा अदाव्यः ततो धर्माणि धारयन् विष्णोः कर्माणि पश्यत यतो ओ व्रतानि इन्द्रस्य युज्यस्तुड् Okay, okay, okay? Okay. okay, so next next week week, week we we we will do uh, do do and Chamakam practice, okay? because we are supposed to be third week, but since this this didn't have a first week class this month. We'll do it next week, and then we'll continue with Vishnu after that, the 31st, okay? Okay. Okay. All right. okay, let's do tri and stop for the day. लोकाः समस्ताः सुखिनो भवन्तु लोकाः समस्ताः सुखिनो भवन्तु लोकाः समस्ताः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः ॐ श्रीगुरुभ्यो नमः हरिः ओ